अवति ओन्रावद् दशकम् यज्ञपत्नी उपाध्यानम् तदश्च वृन्दावनतोऽधिदूरतो वनम् गतस्त्वम् कलु गोपगोकुलै हृदन्तरे भक्ततरद्विजाङ्गना कदम्बकानुग्रहणाग्रहम् वहन् ततो निरीक्षा निरीक्षाचरणे वनान्तरे किशोरलोकम् श्रुतिदम् दृशाकुलम् अदूरतो यज्ञपरान् विजान् प्रति व्यसज्जयो दीतिवियाचनायतान् ददेष्वतो देष्व विधायते भिताम् कुमारकेष्वोदनया शिशुप्रभो श्रुति स्थिरा अभ्यभिनिन्युरश्रुतिम् न किञ्चिदुचुच्च अनादरात् किन्न धियो हि बालक समाययोर्युत्तमिदम् हि यज्वसो चिरादभक्ता कलुते महीसुर कथम् हि भक्तम् त्वयि तै समर्प्यते निवेदयद्वम् गृहिणी जनाय माम् दिशेयुरन्नम् करुणाकुलायिमा भवते रितागता ते दारकादारजनम् ययाशिरे गृहीतनाम्नी त्वयि सम्प्रभाकुल च दुर्वितम् स्वगैर्निरुद्ध अपिपूर्णमाययो विलोल पिञ्चञ्चिकुरे कपोलयो समुल्लसत्कुण्डलमार्द्रमेक्षिते निदाय बाहुम् सुकृतम् ससीमनि स्थितम् भवन्तम् समलोकयन्तत तदा च काचिद्वदुभागमोद्यत गृहीत हस्तादयिते नय ज्वना तदैव सञ्चिन्त्य भवन्त विवेशकैवल्यमकोकृतिम् यसौ आदाय भूज्याननुगृह्यता पुनस्त्वदङ्गसङ्गज्यति गृहम् विलोक्य यज्ञाय विसर्जयन् इमा चकर्तपर्त्रो अविदा स्वगर्हणान् निरूप्य दोषम् च पुनर्विशारिवे प्रबुद्ध तत्वै स्विष्टुज मरुत् दीश निर गता भज गोपाल भज गोपाल प्यारी मुरारी नंदला